गरुडपुराणं प्रेतकाण्डं धर्मकाण्डम् अध्यायं ट्वेण्टि टु गरुड उवाच सम्भवन्ति कथं प्रेधा केन तेषां गदिर्भवेद कीदृक्तेषां भवेद्रूपं भोजनं किं भवेत् प्रभो सुप्रीतास्ते कथं प्रेधाक्व सुरेश्वर प्रसन्नकृपया देवप्रश्रमेणं वदस्व मे श्रीभगवानुवाच पापकर्मरदायै वै पूर्वकर्मवशानुगाः जायन्ते ते मृदा प्रेदास्ताञृणुष्व वदाम्यहं वापि कूपतडागांश्च आरामं सुरमन्दिरं प्रपांसत्मसुवृक्षांश्च तथा भोजनशालिकाः पितृपैतामहम् धर्मं किक्रीणादि स पापभाक मृदप्रेतत्वमाप्नोति यावदा भूतसम्ब्लवम् गोचरं ग्रामसीमाम् तडागारामगह्वरम् कर्षयन्ति च ये चण्डालादुदकात् सर्पाद् ब्राह्मणाद् वैद्युदाग्नितः दंष्ट्र्यदंष्ट्रिभ्यश्च पशुभ्यश्च मरणपापकर्मिणाम् उद्बन्धनमृदा ये च विषशस्त्रहताश्च आत्मो ये आत्मोपपादिनो ये च महारोगैर्मृताय च पापरोगैश्च दस्युभिः असंस्कृतप्रमीतायै विहिताचारवर्जिताः वृक्षोत्सर्गादिलुप्ताश्च लुप्तमासिकपिण्डकाः यस्य न यदि शूद्रोऽग्निं पदनात्पर्वतानां च भित्तिपादेन ये मृताः रजस्वलादि दोषैश्च न च भूमौ मदाश्च ये अन्तरिक्षे मृता ये च विष्णुस्मरणवर्जिताः सूतकैष्वादिसम्पर्कैप्रदभावा इहक्षितौ एवमादिभिरन्यैश्च कुमृत्युवशगाश्च ये ते सर्वे प्रेदयो निष्ठा विचरन्ति मरुस्तरे मादरं भगिनीं भार्यां स्नुषां दुहिधरं तथा अदृष्टदोषां त्यजति सप्रेदो जायदे ध्रुवम् भ्रातृधृग्भ्रह्म गोघ्नसुरापोगुरतल्पकः हेमक्षौमहरस्तार्क्ष्यः स वैप्रेतत्वमाप्नुयाद न्यासापहर्ता मित्रधृक्परदाररतस्तथा विश्वासपादिक्रूरस्तु सप्रेदो जायते ध्रुवम् कुलमार्गांश्च सन्त्यज्य परधर्मरतस्तथा विद्यावृत्तविहीनश्च सप्रेदो जायते ध्रुवम् अत्रैवोदाहरन्तीममिति ह सम्पुराधनं युधिष्ठिरस्य संवादम् भीष्मेण सह सुव्रद तदहं कथयिष्यामि यच्छ्रुत्वा सौख्यमाप्नुयाद युधिष्ठिर उवाच केन कर्मविभागेन के प्रेतत्वमुपजायते केन वा मुच्यते कस्मात् तन्मे ब्रूहि पितामह यच्छ्रुत्वा न पुनर्मोहमेवं यास्यामि सुव्रत भीष्म उवाच येनैव जायते प्रेदो येनैव स विमुच्यते प्राप्नोति नरकम् घोरं दुःसरम् दैवतैरपि सततं श्रवणाद्यस्य पुण्यश्रवणकीर्तनाद मानवा विप्रमुच्यन्ते आपन्नाप्रेदयोनिषु श्रूयते हि पुरा वत्सब्राह्मणः शंसिदव्रतः नाम्ना सन्तप्तकख्यादस्तपोऽर्थे वनमाश्रुतः स्वाध्याययुक्तो ओमेन यो युक्तोदयान्विदः यजन् सकलान्यज्ञान्युक्त्या कालं च विक्षिपन् ब्रहामच् ब्रह् ब्रह्म, ब्रह्म ब्राह्मचर्यसमायुक्तो युक्तस्तपसि मार्दवे परलोगभयोपेतसत्यशौचैश्च निर्मलः युक्तो हि गुरुवाक्येन युक्तश्चातिथिपूजने आत्मयोगे सदोद्युक्तसर्वद्वन्द्वविवर्जितः योगाभ्यासे सदायुक्तसंसारविजिगीषया एवं वृत्तसदा चरो मोक्षकाङ्क्षी जितेन्द्रियः बहून्याब्दानि विजने वने तस्य गदानि वै तस्य बुद्धिस्ततो जादा तीर्थानुगमनम् प्रदि पुण्यैस्तीर्थजलैरेव शोषयिष्ये कलेवरम् सतीर्थे त्व इदम् स्नात्वा तपस्वी भस्करोदये कृत जाप्य नमस्कारो ह्यध्वानम् प्रत्यपद्यत एकस्मिन् दिवसे विप्रो मार्गभ्रष्टो महातपः ददर्शाध्वनि गच्छन् स पञ्चप्रेधान् सुदारुणान् अरण्ये निर्जने देश्ये सङ्कडे वृक्षवर्जिते दे। पञ्चैतान्विकृताकारान् दृष्ट्वा वै घोरदर्शनान् ईषसन्त्रस्तहृदयो तिष्ठदुन्मील्यलोचने अवलम्ब्य ततो धैर्यम् भयमुत्सृज्य दूरतः पप्रचमधुराभाषी ये यूयं विकृताननाः किञ्चा शुभम् कृतं कर्म येन प्राप्ताश्च वै कृतम् कथं वा चैगतकर्मप्रस्थिताः कुत्र निश्चितं प्रेतराज उवाच स्वैस्वैस्तु कर्मभिप्राप्तं प्रेतत्वम् हि द्विजोत्तम सर्वे पापमृत्युवशं गदाः क्षुत्पिपा सार्दिता नित्यं प्रदत्त्वम् समुपागदाः अथवाक्याफदश्रीकाखदसंज्ञा विचेतसः न जानीमो दिशम् पादविदिशम् चाधिदुःखिताः क्वनु गच्छामहे मूढापिशाजा कर्मजा वयन् न मादा न पिदास्माकम् प्रेतत्वम् कर्मभिस्वकैः प्राप्ता स्म सहसा द्वेगसमाकुलम् दर्शनेन च ते ब्रह्मन्मुदिदाप्यायिधा वयम् मुहूर्तन् तिष्ठवक्ष्यामि वृत्तान्तम् सर्वमादिदः अहम्पर्युषितो नाम एष सुचीमुखस्तदा शीघ्रगो रोपश्चैव पञ्चमो लेखत स्मृतः प्रेतानाम् कर्मजातानाम् कथम् वै नाम सम्भवः किञ्चित्कारणमुद्दिश्य येन ब्रूयास्वनामकान् प्रेतराज उवाज मया स्वादु सदा भुक्तम् दत्तम् पर्युषितम् द्विज शीघ्रम् गच्छति वै एतत्कारणमुद्दिश्य नाम मम शीघ्रम् गच्छति विप्रेण याचिदः क्षुदितेन वै एतत् कारणमुद्दिश्य द्विजोत्तमा सूचिता बहवोनेन विप्रा अन्नाधिकाङ्क्षया एतत्कारणमुद्दिश्य जेषसूचिमुखस्मृदः पोश्य वर्गमृदे सदा ब्राह्मणानामभावेन रोधहस्तेन चोच्यते पुरा यं मौनमस्ताय याचितो विलिखेद्भुवं तेन कर्मविभागेन लेखको नाम चोच्यते प्रतत्वं कर्मभावेन प्राप्तं नामानि च द्विज मेष न मेषाननो लेखकोऽयं रोदखः पर्वदाननः शीघ्रघः पशुवक्त्रश्च सूचखप् स्वामिन् पश्य रूप विपर्ययम् कृत्वा मायामयम् विचरामो महीतले सर्वे च विकृताकारालम्बोष्टा विकृधाननाः जिनो जी, रौद्रा जादा स्वेनैव कर्मणा यदत्ते सर्वमाख्यादं प्रदत्त्वे कारणं मया ज्ञानिनोऽपि वयम् सर्वे जातास्म तव दर्शनात् यत्र ते श्रवणे श्रद्धा तत्पृच्छ कथयामि ते ब्राह्मण उवाच ये भुवि जीवन्ति सर्वे प्याहारमूलकाः युष्माकमपि चाहारम् श्रोतुमिच्छामि तत्त्वदः प्रेदा उजुः यदि ते श्रवणे श्रद्धा आहाराणाम् द्विजोत्तम अस्माकं तु मही भागशृणुत्वम् सुसमाहितः ब्राह्मण उवाच कथयन्तुमहप्रेदा आहारम् च पृथक् पृथक् इत्युक्ताम् ब्राह्मणेनेम मोजुप्रेधा पृथक्पृथक् प्रेता ऊजुः शृणुचाहारमस्माकम् सर्वसत्व विगर्हितम् यच्छ्रुत्वा गर्हस्य ब्रह्मन् भूयो भूयश्च गर्हितम् श्ष्मत्रपुरी शोधं शरीराण मलईसह उच्चिष्ट चैता भोजनम भवद गृहा चाप्य शौचा प्रकर्णस्करा च मलिना प्रसूता प्रेता भुंज गृह यौच न चयम पदितैर्दस्युभिः सङ्घप्रेदा भुञ्जन्ति तत्र वै बलिमन्त्रविहीनानि होमहीनानि यानि च स्वाध्यायव्रतहीनानि प्रेदा भुञ्जन्ति तत्र वै सलज्जा न च मर्यादा यदात्र स्त्री जिदो गृही गुरवो यत्र पूज्या न प्रेदा भुञ्जन्ति तत्र वै यत्र लोभस्तधाक्रोधो निद्राशोको भयं मदः आलस्यम् कलहो नित्यम् प्रेदा भुञ्जन्ति तत्र वै भर्तृहीनाचया नारी परवीर्यम् निषेवते बीजमूत्रसमाह्युक्त प्रेदा भुञ्जन्ति तत्तु वै लज्जा मे जायते तादवददो भोजनं स्वकं यस्त्रीरजो योनिगतं प्रेदा भुञ्जन्ति तत्तु वै निर्विण्णा प्रेदत्वं नित्यं मृत्युर्वरं जन्धोः प्रेतत्वं मा भवेत् क्वचिद ब्राह्मण उवाच उपवासपरो नित्यं कृच्छ्रचान्द्रायणे रथः व्रतैश्च विविधैः पूतो न जायते नरः एकादश्यां व्रतं कुर्वन् जागरेण समन्वितम् अपरैः सुकृदै पूतो न जायते नरः जिष्ट्वा वै बाश्वमेधादीन् दद्यादानानि यो नरः आरामोद्यानवाप्यादे प्रपाह्याश्चैव कारकः कुमारीम् ब्राह्मणानां तु विवाह यदि शक्तिदः विद्यादो भयदश्चैव न प्रेदो जायते नरः शूद्रान्नेन दुर्भुक्तेन जठरस्तेन यो मृदः दुर्मृत्युनामृदो यश्च सप्रेदो जायदे नरः अयाज्य याजकश्चैव याज्ञानां च विवर्जकः का कारुभिश्चरदो नित्यं सप्रेदो जायदे नरः कृत्वा मद्यपसम्पर्कम् मद्यपस्त्रीनिषेवणम् अज्ञानाद्भक्षयन्मांसम् सप्रेदो जायते नरः देवद्रव्यम् च ब्रह्मस्वम् गुरुद्रव्यम् तथैव च कन्याम् ददादिशुल्केन सप्रेदो जायते नरः मादरं भगिनीम् भार्याम् स्नुषाम् दुःखितरम् तथाः अदृष्टदो सप्रेदो जादृ न्यासापहर्ता मित्रदुपरदाररथ सदा विश्वासकादिकूडश्च सप्रेदृ भ्रातृधृक् ब्रह्म गोघ्नसुरापो गुरुतल्पकः कुलमार्गं परित्यज्य ह्यनृक्तो क्रौ सदारदः अर्ताहेम् नश्च भूमेश्च सपे सप्रेदृ भीष्म उवाच एवम्भ्रुवदि वै विप्रे आकाशे दुन्दुभिस्वनः अपतत्पुष्पवर्षं च देवर्मुक्तं द्विजोपरि पञ्चदेवभिमानानि प्रेदानामागतानि वै स्वर्गं गताभिमानैस्ते दिव्याै सम्पृच्छ्य तं मुनिं ज्ञानं विप्रस्य सम्भाष्यात् पुण्यसङ्कीर्तनेन च प्रेदापापविनिर्मुक्ता परं पदमवाप्नुयायुः पदमवाप्नुयुः सुद उवाच इदमाख्यानकं श्रुत्वा कम्पितोश्वपत्रवद मानुषाणां हितार्थाय गरुढ पृष्टवान्पुनः यदि श्रीगारूडे महापुराणे द्वितीयांश्ये धर्मकाण्डे प्रेदकल्पे भीष्मयुधिष्ठिरसंवादे प्रेतत्वोत्पत्ति तन्मुक्ति प्रेञ्च प्रेतोख्याननिरूपणम् नाम द्वाविंशोऽध्यायः ओम् अध्यायम् ट्वेण्टि श्री गरुडा ट्वेण्टि 23 गरुडा उवाच किं किं कुर्वन्ति वै प्रेदापिशाचत्वे व्यवस्थिताः वदन्ति वा कदाचित् श्री तद्वदस्व सुरेश्वर श्रीभगवानुवाच तेषां स्वरूपं वक्ष्यामि चिह्नं स्वप्नं यथा तथं क्षुत्तिपा वै प्रविशेयुस्ववेश्मनि प्रधिष्टावायुदेहेषु वायुदेहेषु शयानां स्तु स्ववंशजान् यत्र यच्छन्ति लिङ्गानि अयोगजो वृषो मर्त्यो दृश्यते विकृताननः उद्धृतपश्यति यस्तु तद्विन्द्याप्रेदनिर्मितं स्वप्ने न रौहि निगडैर्बध्यदे बहुधा यदि अन्नं च याचते स्वप्ने कुवेश्य पूर्वजो मृदः स्वप्ने यो भुज्यमानस्य गृहीत्वा अन्नं बलायदे आत्मनस्तु परोवापि तृषार्तस्तु जलं पिबेद वृषभारोहणं स्वप्ने वृषभैः सह गच्छदि उत्पत्त्यगगनं यादितीर्थे यादिक्षुधातुरः स्ववाजा वददे यस्तु भो वृषद्विजा वाजिषु लिङ्गे गजे तथा देवे भूदे प्रयदे निःशाचरे स्वप्नमध्ये दुपक्षीन्द्रप्रेदलिङ्गान्यने कथा स्वकलताम् स्वबन्धुम् वा स्वसुदम् स्वपदिम् विभुम् विद्यमानम् मृदम् पश्येत् प्रेददोषेण निश्चितम् या च ते यः परम् स्वप्ने क्षुदृभ्याम् च परिप्लुतः तीर्थे गत्वा दहेत् संशयः निर्ग चेद्वा स्वप्ने पुत्रस्तथा पिताभ्राताकलत्रं च प्रेद दोषैस्तु पश्यति चिह्नान्येतानि पक्षीन्द्रप्रायचित्तं निवेदयेत् कृत्वा स्नानम् गृहे तीर्थे श्रीवृक्षे तर्पणं जलैः कृष्णधान्यानि पूजां च प्रदद्याद्वेदपारगे ओमं कुर्याद्यथा शक्तिसम्पूर्णं वाचये सुधीः यदद्धि श्रद्धया यस्तु प्रदलिङ्गनिदर्शनं पठते शृणुदेवाभि प्रेदचिह्नं विनश्यदि इति श्रीगारूडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेदकल्पे श्रीकृष्णगरुडसंवादे प्रेद उपाय नाम कृ तच्चिह्नत गरुडपुराणं प्रेतकाण्डं धर्मकाण्डम् अध्यायं ट्वेण्टि फोर् गरुड उपाच नापाले म्रियते कश्चिदिति वेदानु इति वेदानुशासनं कस्मान् मृत्युमवाप्नोति राजा वा श्रोत्रियोऽपि वा यदुक्तं ब्राह्मण पूर्वमनृतं तु यद्वाक्यं शतं जीवति मानुषे लोके सर्वे वर्णाद्विजातयः अन्त्यजाम्लेश्च जाश्चैव खण्डे भारतसंज्ञे न दृश्यते कलौ तच्च कस्मादेव समादिश आधानान्मृत्युमाप्नोति बालो वा स्तविरो सधनो निर्धनो वापि सुकुमारसुरूपवान् अविद्वांश्चैव विद्वांश्च ब्राह्मणस्त्व ब्राह्मणस्त्विधरो जनः तपोरथो योगशीलो महाज्ञानी च यो नरः सर्वज्ञानरथ श्रीमान् धर्मात्मा तुलविक्रमः सर्वमेधदशेषणजाय देवसुधातले कस्मान्मृत्युमवाप्नोति राजा श्रोत्रियो वा श्रोत्रियोऽोऽपि वा श्रीभगवानुवाच साधु साधु महाप्राज्ञयस्त्वं भक्तोऽस्ति मे प्रियः श्रूयतां वचनं गुह्यं नानादेशविनाशनं विध्रादु विधादृविहितो मृत्युशीघ्रमादाय गच्छति तदो वक्ष्यामि पक्षीन्द्रकाश्यपेयमहाद्युते मानुष्यदजीविधिपुरा वेदेन भषितं विकर्मणप्रभावेण शीघ्रं चापि विनश्यति वेदानभ्यसनेनैककुलाचारं नसेवदे सेवदे आलस्यात्कर्मणां त्यागो निशिद्धे निषिद्धेप्यादरः सदा यत्र तत्र गृहे श्रादिपरक्षेत्रतरस्तथा वेदैरन्यैर्महादोषैर्जायदे चायुषः क्षयः अश्रद्धधानमशुचिं नास्ति कंत्यक्रमं कलम् परद्रोहा नृतरम् ब्राह्मणम् यदमन्दिरम् अरक्षितारम् राजानं नित्यम् धर्म विवर्जितं। क्रूरम् व्यसनिनम् मूर्खम् वेदवाद बहिष्कृतम् प्रजापीडनकर्तारम् राजानं यमशासनम् प्रापयन् दिवशम् मृत्योस्तदो यादिजयातनाम् स्वकर्माणि परित्यज्य मुख्यवृत्तानि यानि च परकर्मरतो नित्यं यमलोकम् स गच्छति शूद्रकरोति यः किञ्चित् द्विजशुश्रूषणम् विना उत्तमाधममध्येव यमलोके स पच्यते स्नानं दानं जपो स्वाध्यायो दवर्चत दवर्तार्चनम् यस्मिन् दिनेन सेव्यन्ते सवृथा दिवसो नृणाम् अनित्यमध्रुवम् देहमनाधारं रसोद्भवम् अन्नोदमये देहे गुणानेतान्वदाम्यसं यत्प्रातः संस्कृतं सायं नूनमन्नं विनश्यति तदीयरसम्पुष्टकाये का वदनित्यदा गतम् ज्ञात्वा दु वक्षीन्द्र वपुरर्थम् स्वकर्मभिः नरपापविनाशाय पूर्वीदपरमौषधम् देह किमन्न दादस्विन्यी शेकृदुर्माधुरेव वा उभयोर्वा प्रभोर्वापि बालनोऽघ्ने शुनेऽपि वा कस्तत्र परमो यज्ञकृमि विद्भस्मसञ्ज्ञाके कर्तव्यपरमो यत्नपादकस्य विनाशने अनेकभवसम्भूतम् पादकम् तु तृथा कृतम् यदा प्राप्नोति मानुष्यम् तथा सर्वम् तपत्यपि सर्वजन्मानि संस्मृत्य विषादीकृतचेद नः अवेक्ष्य गर्भवसंश्च कर्मजा गतयस्तधा मानुषोदरवासी चेत्तदा भवति पादगी अण्डजादिषु भूतेषु यत्र यत्र प्रसर्वदि आधयो व्याधयक्लेशाजरारूपविपर्ययः गर्भवासाद्विनिर्मुक्तस्त्वज्ञानतिमिरावृदः न जानाति खगश्रेष्ठ बालभावं समाश्रितः यौवनेतिमिरान्तश्च यः पश्यति स मुक्तिभाक् आधानान्मृत्युमाप्नोति बालो वास्तविरो सधनो निर्धनश्चैव सुकुमारः कुरु भवान् अविद्वांश्चैव विद्वांश्च ब्राह्मणास्तुतिरो ब्राह्मणास्त्वितरो जनः तपोरथो योगशीलो महाज्ञानी च यो नरः महादानरथश्रीमान् धर्मात्मातुलविक्रमः विना मानुपदेशं तु सुखं दुःखं न विन्दति प्राकृतैकर्मपाशैस्तु मृत्युमाप्नोति मानवः आधानात् पञ्चवर्षाणि स्वल्पपापैर्विपच्यते पञ्चवर्षाधिको भूत्वा महापापैर्विपज्यते योनिं पूरयदे यस्मान् मृतोऽप्यायादियादि च मृतोदानप्रभावेण जीवन्मर्त्यश्चिरं भुवि सुद उवाच इति कृष्णवच श्रुत्वा गरुडो वाक्यमब्रवीद गरुड उवाच मृते बाले कथं कुर्यात् पिण्डदानातिकाप्रियाः गर्भेषु च विपन्नानां माचूडा करणाचिशोः कथं किं केन दातव्यमृतान्ते को विधि स्मृदः गरुडोक्तमिति श्रुत्वा विष्णुर्वाक्यमधाब्रवीद श्रीविष्णुरुवाच यदि गर्भो विपद्यते स्त्रवदेवाभियोषितः यावन्मां संस्थितो गर्भस्तावद्दिनमशौचकम् तस्य किञ्चिन्न कर्तव्यमात्मन श्रेय इच्छता जादे विपन्नेतु आचूडा करणा शिशोः दुग्धं भोज्यं दाशप्रतिबलानां च प्रदीयते आचूडात् दुग्धम् तस्य प्रदेयम् स्यात् बालानां भोजनम् शुभम् पञ्चवर्षाधिके प्रेदे स्वजातिर्विहितानि च कुर्यात् कर्माणि सर्वाणि चोदकुम्भादिपायः सन् दातव्यम् तु खगश्रेष्ठ ऋणसम्बन्धकस्तु सः जातस्य चिध्रुवो मृत्युर्ध्रुवम् जन्मम् मृतस्य च कर्तव्यम् पक्षिशार्दूलपुनर्देहक्षयाय वै तस्मै यद्रोचते देयमदत्वा निर्धने कुले स्वल्पायुर्निर्धने भूत्वा रदिभक्तिविवर्जितः पुनर्जन् न... पुनर्जन्माप्नुयान्मर्त्यस्तस्माद्देयमृदेशिशोः पुराणे गीयते गाधा सर्वथा प्रतिभागिमे मिष्ठान्नम् भोजनम् देयम् दाने शक्तिस्तु दुर्लभा भोज्ये भोजनशक्तिश्चरधिशक्तिर्वरस्त्रियः विभवे दानशक्तिश्च नाल्पस्य तपःसफलम् दानाद्भोगानवाप्नोति सौख्यम् तीर्थस्य सेवनाद सुभाषणान् मृदो यस्तु स विद्वान् धर्मवित्तमः अदत्तदाना च दरिद्रो दरिद्रभावाच च करोति पापं पापप्रभावान्नरकं प्रयाति पुनर्दरिद्र पुनरेव वापि इति श्रीगरुडे महापुराणे उत्तरकाण्डे धर्मकाण्डे प्रेतकल्पे श्रीकृष्ण गरुडसंवादेल्पायुर्मरणहेतु वारान्त्येष्ट निरूपणम् नाम चतुर्विंशोऽध्यायः ओम् अध्यायम् 25 श्रीविष्णुरुवाच अध परम् प्रवक्ष्यामि पुरुषस्त्री विनिर्णयम् जीवन्वापि मृदोवापि वापि पञ्चवर्षाधिकोऽपि वा पूर्णे तु पञ्चमे वर्षे पुमांश्चैव सर्वैन्द्रियाणि जानादिरूपविपर्ययौ पूर्वकर्मविपाकेन प्राणिनां वधबन्धनं विप्रादीन् अन्त्यजान् सर्वान् पापम् मारयदि ध्रुवं गर्भे नष्टे क्रिया दुग्धं देयं मृदे शिष्यौ परं च पायस्सं क्षीरं दद्याद्वलविपत्तितः एकादशाकं द्वादशाकं वृषं वृषविधिं विना महादानविहीनं च कुमारे कृत्यमादिशेद कुमाराणाम् चैव बालानां भोजनं वस्त्रवेष्ठनं बालेवा वा तरुणे वृद्धे कडो भवदि वै मृदे भूमौ विनिः बालम् मासो द्विमासोनं द्विवार्षिकं तदपरम्फकश्रेष्ठदेहदाहो विधोयते शिशुरादन्तजननाद्बालस्याद्यावधाशिखं कथ्यते सर्वशास्त्रेषु कुमारो मौञ्जि बद्धनाद क्षुद्रादीनां कथं कुर्यात् संशयो मौञ्चिवर्जनाद गर्भाचनवमं हित्वा शेषुरामास षोडशम् बालशाश्च परञ् आमास सप्तविंशति आ पञ्चवर्षात् कौमार पौदण्डो नवहांव्यनः किशोरषोडशाब्दस्यात् ततो यौवनमादिशेद मृतोऽपि पञ्चमे वर्षे अवृतसवृतोऽपि वा पूर्वोक्तमेव कर्तव्यमेघदे दशपिण्डकं स्वल्पकर्मप्रसङ्गाच्च स्वल्पाद्विषयबन्धनाद् स्वल्पाद्वपुषिवस्त्राच्च क्रियां स्वल्पामपि यावदुपचयोजन्तुर्यावद्विषयवेष्टितः यद्यस्योपजीव्यं स्यात् तत्तद्देयमिहेच्छति ब्रह्मबीजोद्भव पुत्र देवर्षोणां च वल्लभा यमेन यमदूतैश्च शास्यन्ते निश्चिदं बालो वृद्धो युवा सुखम् दुःखम् सदा वेति देही वै सर्वगस्त्विः परित्यज्य तदात्मानम् जीर्णम् त्वचमिवो रगः अङ्गुष्टमात्रपुरुषो वायुभृतः क्षुधान्विदः तस्माद्देयानि दानानि मृदे बाले सुनिश्चितम् जन्म धर्षाणि भुङ्गे दत्तमः संस्कृतम् पञ्चवर्षाधिके बाले विपत्तिर्यदिजायते वृक्षोत्सर्गादिकं कर्म सपिण्डीकरणं विना द्वादशेखनि सम्प्राप्ते कुर्या श्राद्धानि षोडश पायसेन गुडेनापि पिण्डान् दद्याद्यथाक्रमम् <एस्थाउसे> उद कुम्भप्रदानं च भोजनानि द्विजे दद्यान्महादानादिशक्तिदः दीपदानादि यत्किञ्चित् पञ्चवर्षाधिके सदा कर्तव्यं च खगस्रष्टव्रतात् प्राक् प्रेदतृत्तये यदा न क्रियते सर्वं मुद्गलत्वं स गच्छति व्रतात् प्राङ्गे वदेयम् तु तदपितृगणस्य जोकाकारेण वैहुर्या ऋजुदर्भैस्थिलैः शुक्लैः प्राचीना वीधिनिश्चितम् अपसव्यम् च कर्तव्यम् कृदयान्ति परां गतिम् भूत्वा जायन्ते स्वकुले ध्रुवम् सर्वसौख्यप्रदपुत्रपित्रो प्रीतिविवर्धनः आकाशमेकम् हि यथा चन्द्रादित्यौ यथैकतः कडादिषु पृथक् सर्वम् पश्यरूपम् च तत्समम् आत्मा तथैव सर्वेषु पुत्रेषु विचरेत् सदा जायस्य प्रकृतिपूर्वम् शुक्र शोणिदसङ्गमे सा तेन भावयोगेन पुत्रास्तत्कर्मकारिणः पितृरूपम् समादाय कस्यचिज्जायते सुधः पितृगकोऽपिरूपाढ्यो गुणज्ञो दानतत्परः सदृशकोऽपि लोकेऽस्मिन्न भूतो न भविष्यति अन्धादन्धो न भवति मूकान्मोको न जायते बधिराद्बधिरो नैव विद्यावान्विदुषो न हि अनिरूपा मदीयं वचनं शृणो गरुड उवाच औरसक्षेत्रजाद्याश्च पुत्रा दशविधा स्मृताः गृहीतसुतो यस्तु दासी पुत्रश्च तेन किम् काङ्काम् जायो मृत्युवशम् गतः भवेन्न दुःखिता यस्य न दौहित्रो न वासुदः श्राद्धम् तस्य कथम् का कार्यम् विधिना तद्भवेद श्रीभगवानुवाच मुखम् दृष्ट्वा दौ पुत्रस्य मुच्यते पैतृकादृणाद पौत्रस्य दर्शनजन् दुर्मुच्यते चहृणत्रयात् लोकानन्द्यम् दिवप्राप्तिपुत्र पौत्र प्रपत्तकैः प्रपौत्रकैः अन्यक्षेत्रोद्भवाध्याये भुक्तिमात्रप्रदा सुदाः कुर्वीदपर्वणम् श्राद्धमारयसो कुर्वन्त्यन्येषु दाश्राद्धमेकोद्दिष्टं न पार्वणम् ब्राह्मो ब्राह्मो डाजस्तून्न यदि सङ्गृहीतस्त्वधो नयेद श्राद्धं साम्वत्सरम् कुर्वन् जायते नरकाय वै सर्वदानानि देयानि ह्यन्न सङ्गृहीतस्सुतकार्यादेकोद्दिष्टम् न पार्वणम् प्रत्यब्धम् पितृमादृभ्याम् श्राद्धम् दत्त्वा न लिप्यदे एकोद्दिष्टम् परित्यज्य पार्वणं कुरुते यदि आत्मानम् च पितृंश्चैव स न येभ्यमममन्दिरम् सङ्गृहीतस्तु यः के जिद्दासि पुत्रादयश्च ये तीर्थे कुर्युपितृश्राद्धम् दानम् दद्योर्द्विजन्मने सङ्गृहीत सुतो भूत्वा पाकम् वा य प्रयच्छति विजानिया श्राद्धम् विजानीया चूद्रान् यथा द्विजः न प्रीणयति हीनजातीन्सुदां स्त्यजेत ब्राह्मण्याम् ब्राह्मणा जातश्चाण्डालाद्धमस्मृतः यस्तु प्रव्रजिता जातो ब्राह्मण्याम् शूद्रतश्च यः द्वा वेदौ विद्धिचाण्डालौ स गोत्राद्यस्तु जायते स्वर्यादिविहितान् पुत्रसमुत्पाद्य कगेश्वर तैः सुवृत्तै सुखं प्राप्यं कुवृत्तैर्नरकं व्रजेद हीनजातिसमुद्भूतै सुवृत्तै सुखमेधदे कलिकलुषभिमुक्तपूजितसिद्धसङ्खैरमरचमरमाला विज्यमानोप्सरोभिः पितृशदमपि बन्धून् पुत्र प्रपौत्रा नपि नरकनिमग्नानुधरे दहेव उद्धरे दये उद्धरेदेक एव इति श्रीकारूढे महापुराणे द्वितीयांशे धमकाण्डे धर्मकाण्डे प्रेदकल्पे श्रीकृष्णगरुडसंवादे मृद बालान्त्येष्टिभिन्ना भिन्नः सुद कृतान्त्येष्ट्योर्वर्णनं नाम पञ्चविंशोऽध्यायः ओम् <ुम> अध्यायं ट्वेण्टिसिक्स् गरुड उवाच सत्यं ब्रूहि सुरश्रेष्ठकृपां कृत्वा मयि प्रभो मृतानां चैव जन्तूनां कदा कुर्यात् स पिण्डनम् सपिण्डत्वे कुतो यान्ति असपिण्डे कुतो गतिः केनैव सहपिण्डत्वम् स्त्री पुंसोर्वक्तुमर्हसि स्त्री पुमांसौ सहैकत्वम् प्राप्नुधमुत्तमम् जीवेद्भर्तरि नारीणां सपिण्डीकरणम् कुतः भर्तृलोकम् कथम् यान्तिस्वर्गलोकम् सुरेश्वर अग्न्यारोहे कथम् श्राद्धम् वृष्योत्सर्ग कथम् भवेद खडदानम् कथम् कार्यम् स पिण्डी करणे कृते कथयस्वप्रसादेन गीताय जगदाम् प्रभो श्रीभगवानुवाच यथावत् कथयिष्यामि स पिण्डीकरणम् खग वर्षम् यावत् कगश्रेष्ठयथा चरति मानवः सपिण्डने ततो वृत्ते पितृलोकम् स गच्छति तस्मात् पुत्रेण कर्तव्यम् सपिण्डीकरणम् पितुः संवत्सरे दुःसम्पूर्णे कुर्यात्पिण्डप्रवेशनम् सः पिण्डे कृते प्रेतस्ततोयादिपराम् गतिम् तन्नाम सम्पदित्यज्य तदपि दृगणो भवेद त्रिपक्षे वापि षण्मासे मेलयेत्प्रपितामहैः ज्ञात्वा वृद्धिविवाहादि स्वगोत्र विहितानि च विवाहम् नैव कुर्वीद मृते जगृहमेधिनि भिक्षुर्भिक्षां न गृह्णादि यावत्कुर्यात् स पिण्डनं स्वगोत्रेऽप्यशुचित् तावद्यावत्पिण्डं न मेलयेद मेलनात्प्रेदशब्दस्तु निवर्तेद खगेश्वर अनन्द्यात् कुलधर्माणां युषः क्षयाद अस्तिरत्वा अस्थिरत्वाच्छरीरस्य द्वादशाखप्रशस्यदे निरग्निकसाग्निगो वा द्वादशाखे स पिण्डयेद द्वादशशाखे त्रिपक्षे वा षण्मासे वत्सरेऽपि वा सपिण्डीकरणम् भोक्तमऋषिभिस्तत्वदऋषिभिः सपुत्रस्य न कर्तव्यमेकोद्दिष्टम् कदा जन सपिण्डीकरणादूर्ध्वम् यत्र यत्र प्रदीयते तत्र तत्र त्रयम् कार्यमन्यथापितृकादकः त्रिभिः कुर्यादशक्तश्च दस्या पार्वणम् मुनिनोदितम् तद्दिने तद्दिने कुर्यात् पितामहमुखान्यदः अज्ञानादिनमासनम् तस्मात् पार्वणमिष्यदे अनुत्पन्नशरीरस्य नदानं विदृभिः सह एतैः षोडशभिश्राद्धैप्रेदो मुक्तस्तु जायते अपुत्रस्य सपिण्डत्वं नैव कुर्या स्त्रियोऽोऽपि वा यावज्जीव ब्राह्मादिषु विवाहेषु या वधूरिह संस्कृता भर्तृगोत्रेण कार्तव्या तस्या पिण्डोदक्रियाः आसुरादिविवाहेषु या व्यूढा कन्यका भवेद तस्यास्तु पितृगोत्रेण कुर्यापिण्डोदकक्रियाः पितुः पुत्रेण कर्तव्यं सपिण्डीकरणं सदा पुत्राभावे दुपत्नी स्यात् पत्न्यभावे सहोदरः भ्राता वा भ्रातृपुत्रो वा सपिण्डशिष्य एव वा, वा स्वपिण्डनक्रियाम् कृत्वा कुर्यान्नान्दीमुखम् ततः ज्यष्टस्यैव कनिष्ठेन भ्रातृपुत्रणपर्यया सपिण्डीकरणम् कार्यम् पुत्रहीनेन रेखग का भ्रातॄणामेकजातानामेकश्चेत् पुत्रवान् भवेद सर्वेदेतेन पुत्रेण पुत्रिणो मनुरब्रवीत सर्वेषां पुत्रहीनानां पत्नी कुर्यात् स पिन्दनं पृत्विजाकारयेद्वापि पुरोहितमधापि वा कृतचूडोपनीतश्चपि दुःश्राद्धं समाचरेद उच्चारये न दुर्वेदाक्षराण्यः सौ भात्रादिभिःस्त्रिभिः कार्यं स पिण्डीकरणं श्रियाः पितृव्यभ्रातृपुत्रेण सोदरेण कनीयसा अर्वाक् संवत्सरात् सन्धौ पूर्णे संवत्सरेऽपि वाक् ये स पिण्डीकृता प्रेता तेषां न विगर्हितम् यस्तु कुर्यात् पृथक्पिण्डम् पितृशासोऽभिजायते स पिण्डीकरणे वृत्ते पृथक् त्वम् नोपपद्यते पृथक्पिण्डे कृते पश्चात् पुनः कुर्यात् स पिण्डनम् स पिण्डीकरणम् कृत्वा करोति यः आत्मानम् च तदा प्रेदम् सनयेद्दमशासनाद् वर्षम् यावक्त्रिया कार्या नाम गोत्रेण धीमदा कडादिभोजनं नित्यं पददानानिया यानि जा सपिण्डीकरणे वृत्ते एकस्यैव दुधापयेद अन्नम् पानीयसहितं सङ्ख्यां कृत्वाब्धिकस्य जातव्यं ब्राह्मणे पक्षिञ्जलपूर्णकडाधिकं पिण्डान्ते तस्य सकलावर्षवृत्तिस्वचकृतः दिव्यदेको विमानस्थः सुखं यादि यमालयम् जीवमाने च पुत्रे स पिण्डदा स्त्रीणाम् स पिण्डनम् नास्ति तदा भर्तरि जीवदि उदाश्यम् या समारूढ चतुर्धेऽह्निपदिव्रत तस्याः भर्तृदिने कार्यम् वृष्यो सर्गाधिकम् च यत् पुत्रिकापति गोत्रा पुत्रजन्मनः पुत्रोत्पत्तेः परस्तात् पितृगोत्रम् व्रजेत् पुनः पदि पत्न्योः सदैकत्वम् उदाश्यम् व्याधिरोहदि पुत्रेणैव पृथक् श्राद्धम् क्षयाक्ये तस्य वासरे अपुत्रौ चन्मृदौ स्यातामेकचित्याम् समेहनि पृथक् श्राद्धानि गुर्विदसा पिड्यम् पदिना सह पृथक् पृथक् च पिण्डेन दम्पतीपतिना सह सत्यं वजो मम एकचित्यां समारूढौ दम्पती निधनम् गतौ एक पाकं प्रकुर्वीद पिण्डान् दद्यात् पृथक् पृथक् एकादशे वृषोत्सर्गं प्रेधश्राद्धानि षोडश खडादिपददानानि महादानानि वर्षं यावत् पृथक् प्रेदस्तृप्तिं प्रजेचिरम् एकगोते मृदानां तु स्त्रिया वा पुरुषस्य वा स्तण्डिलं च इहदः कुर्याद्मं कुर्यात् पृथक् पृथक् एकादश्यग्नियश्राद्धं पृथक् पिण्डाश्च भोजनं पाकै रेण च विगर्हितम् एकेनैव दुभागेन श्राद्धानि गुरुदे सुदः एकं तु विगिरं गुर्या पिण्डान् दद्यद्बहूनपि तीर्थे च परपक्षे वा चन्द्रसूर्यग्रहेऽपि वाक् नारीभर्तारमासाध्य गुणपन्दहदे यदा अग्निर्दहदि गात्राणि आत्मानं नैव पीडयेद दह्यते उद्धमायमानानां दानुनां हि यथा दा मलम् तदा नारी नारीदहे देहं हृदास्ये ह्यमृदोपमे दिव्या दौ दिव्यदेहस्तु शुद्धो भवति पुरुषः तप्त ता तैलेन ता लोहेन वह्निना नैव दह्यते तथा सपदि संयुक्ता दह्यते न कदाचन अन्तरात्मा मृदे तस्मिन् मृतोऽप्येकत्वमात्मा एकत्वमागतः भर्तृसङ्गम् परित्यज्य अन्यत्र म्रियते यदि भर्तृलोकं न स यादि यावदा भूतसम्प्लवं लक्ष्मीयुधान् परित्यज्य मादरम् पितरम् तथा मृतं पतिमनुव्रज्य सा चिरं सुखमेधदे दिव्यवर्षप्रमाणेन तिस्र कोट्योऽर्ध्वकोटयः तावत्कालं वत्सेत् स्वर्गे नक्षत्रैः सह सर्वदा तदन्ते चरदे लोके कुले भवति भोगिनां साहि हि दब्धमहाप्रीतिर्भर्त्रा सह पतिव्रता एवं न कुरु देनारी धर्मोढा पतिसङ्गमम् जन्मजन्मनि दुःखार्ता दुःशीला प्रियवादिनी बल्गुली गृहशोधा वागोधा वा द्विमुखी भवेद स्वभर्तारं परित्यज्य परपुंसोऽनुवर्धिनि तस्मा सर्वप्रयत्नेन स्वपदिं स्त्री निषेवदे मनसा कर्मणा वाचामृतम् जीवन्तमेव वा जीवमाने मृदेवापि किल्बिषम् गुरुदे तु या स च दुर्भगा यद्देवेभ्यो यत् पितृभ्य श्रद्धयैव प्रदीयते तद्फलम् भर्दृपूजादकुर्यात् भर्चनम् तदः एवं कृते खगश्रेष्ठपितृलोके चिरं वसेद यावदादित्यचन्द्रौज तावदेव समादिवि पुनश्चिरायुषो भूत्वा जाय देवि पुले कुले पतिव्रता यथा नारी भर्तृदुःखं न विन्ददि सर्वमेदद्धि कदितं मया विशेषं कथयिष्यामि मृदस्यैव सुखप्रदं द्वादशाके कृतं सर्वं वर्षं यावत् स पुनः कुर्यात् सदा नित्यम् खडान्नम् प्रतिमासिकम् कृतस्य का कृतस्य करणम् नास्ति प्रेदकार्यादृदे खगा य करोति नरः कश्चित् कृत्पूर्वम् विनश्यति मृदस्यैव पुनः कुर्यात् प्रेदोऽक्षय्यमवाप्नुयाद प्रतिमासं खडादेया शोधनाजलभूहिताः अर्वाच्य वृद्धे करणाच्च तार्क्ष्य सपिण्डनं ह्यः कुरु देहि पुत्रः तथापि मा सम्प्रतिपिण्डमेकमन्नम् च कुम्भम् सजलम् च दद्याद इति श्रीगरुडे महापुराणे उत्तरखंडे द्वितीयांशे धर्मकाण्डे श्रीकृष्ण गरुडसंवादे प्रदकल्पे सपिण्डननिरूपणं नाम षड्विंशोऽध्यायः ओम्